कुमारसंभवं स्वर्गं फिफ्टीन् सेनापतिं नन्दनमन्धगद्विषो युधे पुरस्कृत्य बलस्य शात्रवः सैन्यैरुपैति धिसुरद्विषां पुरोऽभूत् किं वदन्ती हृदयप्रकम्पिनी च मूप्रभुं मन्मथ मर्दनात्मजं विजित्वरीभिर्विजयश्रियाश्रितम् श्रुत्वा सुराणां पृतनाभिरागदं चित्ते चिरं चुक्षुभिरे महासुराः समेत्य दैत्याधिपदे पुरे स्थिता किरीडबद्धाञ्जलयप्रणम्यदे न्यवेद यन्मन्मथशत्रुसूनुना युयुत्सुना जम्भजिदं सहा गतम् दासीकृता शेषजगत्त्रयं न मां जिगाय युद्धे कदिश्यचीपदिः गिरीशपुत्रस्य बलेन साम्प्रतं ध्रुवं विजेते दिश काकुतोहसत तथ क्रुधा विस्फुजिता युधे त्रिलोकी जयकेलिलालसः सेनापदीन् संनहनार्थमादिशद महाचमोनामधिपासमन्तदः संनह्य सद्यः सुधरामुदा युधाः तस्तुर्विनम्रक्षिदिपालसङ्कुले तदङ्गनद्वारवरप्रकोष्ठके सद्वारपालेन पुरप्रदर्शितान् कृता नदीन् बाहु वरानधिष्ठितान् महाहवाम्भोधिविधूनोद्धतान् बहुन राजा पृतनाधिपान् बहून् बलीबलारादिबलादिशादनम् दिग्दन्दिना दद्रवनाशनस्वनं महीधराम्भोदिन वारिदक्रमं ययौरथं घोरमधाधिरुह्य सः युगक्षयक्षुब्ध पयोधिनिस्वनाचलत्पदाकाकुल वारिदा धरा रजोऽग्रस्तदिगन्धभास्करापदिं प्रयान्तम् पृतनास्तमन्वयुः चमूरजप्राप दिगन्धदन्दिनां महासुरस्याभिसुरम् प्रसर्पिणः दन्तप्रकाण्डेषु सितेषु शुभ्रताम् कुम्भेषु दानाम्बुखनेषु पङ्कताम् महीभृतां कन्दरधारणोल्बणैस्तद्वाहिनीनां पडहस्वनैर्खनैः उद्वेलिताश्चुक्षुभिरे महार्णवा नभस्त्रवन्दी सहसाभ्यवर्धत सुरारिनाथस्य महाचमूस्वनैर्विगाह्यमाना तुमुलैसुरापगा अभ्युच्छ्रुदैरूर्मिशतैश्च वारिजैरक्षालयन्नागनिकेतनावलीम् अध प्रयाणाभिमुखस्य नाकिनां द्विष पुरस्तादशुभोपदेशिनी अगाध दुखां बुधिम्यम्जनम बभू वचोत्द परंपरा तवा अगामि दैत्याशन केिणी कोरतरा को परंपरा दग्ध पदम व्योम सुरारी वानीुपर्यत्य तपा। मुहुर्विभग्ना तपवारणध्वजश्चलद्धरा धूलिकुलाकुलेक्षणः धूताश्वमादङ्गमहारधा करानवेक्षणोऽभूत्प्रसभं प्रभञ्चनः सद्यो विभिन्नाञ्चनपुञ्चतेजसोमुखैर्विषाग्निं विकिरन्त उच्चकैः पुरः पथोऽतीत्य महाभुजङ्गमाभयङ्कराकारभृदो भृशं ययुः मिलन्महाभीमभुजङ्गभूषणं प्रभुर्दिनानां परिवेषमादधौ महासुरस्य द्विषतोधिमत्सरादिवान्दमासूचयितुं भयङ्करः द्विषामधीशस्य पुरोधिमण्डलं शिवाः समेताः परुषं ववाशिरे सुरारिराजस्य रणशोणितं प्रसह्य पातुं द्रुतमुत्सुका इव दिवापि तारास्तरलास्तरस्विनीः परापदन्ती परितोधवाहिनीः विलोक्य लोको लो मनसा व्यचिन्तयत्प्राणव्ययान्तं व्यसनं सुरद्विषः ज्वलद्भिरुच्चैरभितप्रभाभरैरुद्भासिदाशेषदिगन्धराम्बरं रवेण रौद्रेण हृदन्तधारणं पपादवज्रं नभसो निरम्बुदात् ज्वलद्भिरङ्गारचयैर्नभस्तलम्बवर्षगाढं सह शोणितास्थिभिः धूमं ज्वलन्ध्यो व्यसृजन्मुखैरजो दधुर्दिशो रासभखण्डधूसरम् निर्घादघोषो गिरिशृङ्गशादनो खनोऽम्बराशाकुहरो दरम्भरिः बभूव भूम्ना श्रुतिभित्तिभेदनप्रकोपि कालार्जितगर्जितर्जनः स्खलन्महेभं प्रपतत्तुरङ्गमं परस्पराश्लिष्टजनं समन्तदः प्रक्षुभ्यदं भोदि विभिन्नभूधराद्बलं द्विषो भूधवनिप्रकम्पात् ऊर्ध्वीकृतास्यारविदत्तदृष्टय समेत्य सर्वे सुरविद्विषः पुरः श्वानस्वरेण श्रवणान्तशादिना मिधो रुदन्तकरुणेन निर्ययुः अपीति पश्यन् परिणामदारुणां महत्तमां गाढमरिष्टसन्ततिं दुर्दैव दष्टो न खलुन्यवर्ततक्रुधा प्रयाणव्यवसायतोऽसुरः अरिष्टमाशङ्ग्यविपाकदारुणम् निवार्यमाणोऽपि बुधैर्महासुरः पुरःप्रतस्ते महदां वृद्धा भवेदः सद्ग्रहान्धस्य हितोपदेशनम् क्षितौ निरस्तं प्रतिकूलवायुना तदीयचामीकरकर्मवारणं रराजमृत्योरिव पारणाविधौ प्रकल्पितं हाटकभाजनं महद विजानदाभावि शिरो निकृन्तनं प्रज्ञेन शोकादिव तस्य मौलिना मुहुर्गलद्भिस्तरलैरलन्तरामरोदिमुक्ता बलवाष्पबिन्दुभिः निवार्यमाणैरभिदोनुयायिभिर्ग्रहीतुकामैरिवतं मुहुर्मुहुः अपाधिगृध्रैरभिमौलिमाकुलैर्भविष्यदेदन्मरणोपदेशिभिः सद्यो निकृताञ्चन सोदरद्युदिम्फणा मणिप्रज्वलदं सुमण्डलं निर्यद्विशोल्कानलगर्भफूत्कृतं ध्वजे जनस्तस्य महाहि मैक्षद रथाश्वकेशावीकर्णचामरं ददाख बाणासनबाणबाणधीन् बाना अकाण्टतश्चण्डतरो हुदाशनस्तस्यात्तनुस्यन्तनधुर्यगोचरः तनुस्यंतन पुनः पुनः यदा मदान्धो न गदान्यवर्तदां बरात्तदा भून्मरुदां सरस्वती मदान्धमागाभुजदण्डचण्डिमा वलेपदो मन्मद हन्द्रुसूनुना सुरैः सनाधेन पुरन्दराद्यभिः समं समन्तात्समरं विजित्वरैः गुहो सुरैः षड्दिनजातमात्रको निदाखधामेव निषादमोभरैः विषह्यदेनाभिमुखो हि सङ्गरे कुतस्त्वया तस्य समं विरोधिता अभ्रं रिहैः शृङ्गशदैः समन्तदो दिक्चक्रवालैः स्थगितस्य भूभृतः क्रौञ्चस्य रन्ध्रं विशिखेन निर्ममे येनाह वस्तस्य सहत्वया त्वया लब्ध्वा धनुर्वेदमनङ्गविद्विषस्त्रिः सप्त कृत्व समरे महीभुजाम् कृत्वाभिषेकम् रुधिराम्बुभिर्घनैः स्वक्रोधवह्निं शमयाम्बूवयः न जामदग्न्यः क्षयकालरात्रिकृत्सक्षत्रियाणां समराय वल्गदि येन त्रिलोकी सुफटेन तेन कुतोऽवकाशः सह विग्रहग्रहे त्यजाशुगर्वं मदमूढमास्म गास्मरारिसूनोर्वरशक्रिगोचरं तमेव नूनं शरणं व्रजाधुना जगत्सुवीरं स चिराय जीवतद श्रुत्वे दिवाजं वि गरी क्रोधा गरीयसीं क्रोधादहङ्कारपरो महासुरः प्रकम्पिताशेषजगत्त्रयोऽपि सन्नकम्पतोच्चैर्दिवमभ्यधाच्छ सः किं ब्रूधरे व्योमचरा महासुरा स्मरारि सूनुप्रतिपक्षवर्तिनः मदीय मदीयबाणव्रणवेदना वेदनाहि साधुना कथं विस्मृति गोचरीकृता हुडस्वरैप्रालपथाम्बरस्थिताशिशोर्बलात् षड्दिनजातकस्य किं श्वानप्रमत्ता इव कार्तिके निशिस्वैरम्बनान्ते मृगधूर्तका इव सङ्गेनवो गर्भतपस्विन शिश्युर्वराक येषोऽन्तमवाप्स्यदि ध्रुवम् अदस्करस्तस्करसंगदो यधा तद्वो निहन्मि प्रथमं तदोऽप्यमुम् इदीरयत्युग्रतरं महासुरे महाकृपाणं कलयत्यलं क्रुधा परस्परोत्पीडितजानवो भयान्नभश्चरा दूरतरं विदुद्रुवुः तदोवलेपाद्विकडं विहस्य सव्यधत्तकोशादसिमुत्तमं बहिः रथं ध्रुतं प्रापय वासवान्तिकं नन्वित्यवोचन्निजसारथिं रथी मनोदिवेगेन रथेन सारथिप्रणोदितेन प्रचलन् महासुरः ततः प्रपेदे सुरसैन्यसागरं भयङ्कराकारमपारमग्रतः पुरःसुराणां पुदनां प्रधीयसिं विलोक्य पुलकं प्रमोदजं बभारभूम्नाधस बाहुदण्डयो प्रचण्डयो सङ्गरकेलिकौतुकी ततो महेन्द्रस्य चराश्चमूचरारणान्तलीला प्रभसेन भूयसा पुरप्रचेलोर्मनसोदिवेगिनो युयुत्सुभिक् किं समरे विलम्ब्यते पुरस्थितं देवरिपोश्चमूचरा बलद्विषः सैन्य समुद्रमभ्ययुः भुजं समुत्क्षिप्य परेभ्य आत्मनोऽभिधानमुच्चैरभिदोऽन्यवेदयन् पुरोगतं दैत्य चमू महार्णवं दृष्ट्वा परं चुक्षुभिरे महासुराः पुरारिसूनोर्नयनैककोणगे ममुर्भटास्तस्य रणे वहेलया द्विषद्वलत्रासविभीषिताश्च मूर्दिवौकसामन्धकशत्रुनन्दनः अपश्य दुद्दिश्य महारणोत्सवं प्रसादपीयुष चक्षुषा उत्साहिता शक्तिधरस्य दर्शनान् मृधे महेन्द्रप्रमुखा मखाशनाः अहं रुधे जेदुमरीनरीरमन्नकस्य वीर्याय वरस्य सङ्गतिः परस्परं वज्रधरस्य सैनिका द्विषोऽपि योद्धुं स्वकरोद्धृतायुधाः वैतालिकश्राविततारविक्रमाभिधानमीयोर्विजयैषिणो रणे संग्रामं प्रलयाय सन्निपतदो वेलामदिक्रामदो वृन्दारासुरसैन्यसागरयुगस्याशेषदिग्व्यापिनः कालात्तिथ्यभुजो बभूव बहलः कोलाहलक्रोषणः शैलोत्तालतडीविघट्टनपटोर्ब्रह्माण्ड कुक्षिं भरिः ओ